अहम् oh. यज्ञश्वेतमालभेत भूतिकामो वाजुर्वै क्षेमिष्ठा देवता वाजुमेवेन सदेवैनं भवत्येव दिक्षिप्रा देवतेत्याहुस्वैनमेश्वरा प्रदाहयित्येतमेव सन्तं वाजवेन युत्पथः लभेत अस्य धृतदेव भोज्यमु वैत्यप्रदायभवत्येव वाजवेन युत्पथः लभेत ग्रामकामो वाजव जुमा प्रजानस्योताने नियते वाजुमेव नियत्वं दज्ञस्वेन भागधे नोपधामदि सदेवास्मै प्रजानस्योतानि यच्छति ग्यान्येव भवति नियुत्वदे भवस्मा अनपगाः करोति वाजुवे प्रजान्न विन्दते वायुमेव नयुत्वं तज्ञस्वेन भागधे दैनोपधावयदेवास्मै प्राणापाणाभ्यां प्रजां प्रज विन्दते प्रजां वाजुमे नियुत्वदोगामयामि प्राणो मै वायुरपानो नियुत् प्राणापानो खलु पादय तस्मादपक्रामतो यस्य ज्यो गामयति वाजुमेव तज्ञस्वेन भागधे जेनो सदेवास्मिन् प्राणावानौ तथा प्रजापतिर्वासीत् स्वकामगत प्रजाः सृजयत्मनोदक्षि दत्तामग्नौ प्रागृह्णात्ततो दस्तो बलः समभवत्तस्वाजी देवतालभत ततोभय स प्रजाः सृज रजः प्रजाकामः पशुकामः स्यात् सजयतं राजा यमजन्तो परमालभयद प्रजापतिमेव नोपथावत् सदेवास्मे प्रजां पशों प्रजन यदि यच्छमशृणस्तत्पुरुषाणागं रूपं यत्तो परस्तदश्वानां यदन्यतो तं तद्गवां यदविजायवशभास्तदवेनां यदजस्तदजानामेतावन्दो वये ग्राण्यास्पशभस्तान् रूपेण वा वरुन्त्रे सोमापौष्णन्त्रैतवा ुकामाद्वौ वा अजादे स्तनौ नैव द्वाभि देपूर्जं पुष्टिं त्रिजेर सोमापूषणा वेव स्मै नोपधापदिता वे, वे वा स्मै पशुवं व्रजनगतः सोमो वै नेदोधा पूषापशूनां व्रजनगिता सोमदेवास्मै नेतोपशोन् व्रजनगत्यौदुम्बरोपो भवत्योर्द्वापुदुम्बरपोर्ग्वपूर्जै स्वावोर्जम् पशो न प्रजापद्यः प्रजा असृजतता अस्मात् सृष्टाः पराजेरायन्ता वरुणमगच्छन्ता अन्वये ताः पुनरयाच तता अस्मै न पुनर्दता सोऽरभे त्वरं ऋणेष्व च मे पुनर्देहेतासां वरमालभत स कृष्ण एकवर्वात्तस्मै देवाः प्रायश्चित्यमेच्छन्त सा कृष्णाविरभवद्यद्विचेदुं सा फल्गुणी यत् ऋेदकुं सा बलक्ष्ये यदध्यस्थानपाकन्द समभवत्ते देव अब्रुवन्देव वसुर्व जगं समभूत्कस्मायममालप्स्यामः जगतवेदह्यल्पा पृथिवीजासेतजातामोषधजस्तामबिम्बसामादित्येभ्यः कामाया लभन्तजजायन्तौषधजो यः कामयेत प्रथे पशुभ्यः प्रजया यायेदेशे तामबिम्बसामादित्येभ्यः कामाया लभेदादित्या देवनाभ्यस्मेन भागेदेनोपधापदितयवैनं प्रसयन्त प्रजया जनयन्तसा वादित्यो नरोचत तस्मै देवायश्चित्यमेच्छन्दस्मादयतामलः आलभन्ताग्ं कृष्णग्रीवेगं स गम्भ्यता मयीन्द्रेगश्वेताम्बारहस्पत्यान्ताभिरेवस्मिन्द्रमदुर्यो ब्रह्मवर्च सकामस्यात् तस्मादयतामलः आलभेता ज्ञेरीं कृष्णग्रीवेगं स गम्भ्यता मयीन्द्रेग्वे श्वेताम्बारिहस्पत्याभेता एव देवतास्वे दे नोपधापदिता एवास्मिन् ब्रह्मवर्चसन्दधरि ब्रह्मवर्चस्येव भवति वसन्ता प्रातरा कृष्णग्रीवेमालभेदग्रेष्मे मध्यन्त ते सगुं हितामेन्द्रे गुंशरद्ये श्वेताम्बारिहस्वत्यान्द्रेणि वा आदित्यस्य ते जागुंसि वसन्दा मे मध्यन्दिने शरद्येवा वरुन्धेभ्यन्द्रे मे ब्रह्मवर्चसस्य प्रदाता संवत्सर देवास्मै ब्रह्मवर्चसं भवति गर्भिणजो भवन्देन्द्रियं वे गर्भयन्द्रियमेवास्मिन् दधति सारस्वतीयं मेदे स्सन् वाचन्दपदे वाग्स्मेनोपस्मिन् वाचं दधा च प्रवधिता वाचो भवत्यस्मा सर्वां वाचं वदन् शलेरन्य श्रीदाति सौमाव्यसमुदय दीदातु सौम्यं बभ्रमालभेदा ज्ञेदं कृष्णग्रेवं प्रजागामः सोमो वैरेतो प्रजानाः व्रजनयता सोमदेवास्मैरतोदधाः त्यज्ञः प्रजां प्रजनयति गन्धे प्रजामाः ज्ञेदं कृष्णग्रेव मालभेद सौम्यं बभ्रि योब्रां भणो विद्यामन ोचन विरोचदयलाः नेदोभवति देलदेवास्मिन् देन दधादयत्सौम्य ब्रह्मवर्चसं दयन कृष्णग्रेव नेदो भवति तमदेवास्मादपहन्ति श्वेतोभवति ऋषमेवास्मिन् दधाति बभ्रौम्यो भवति ब्रह्मवर्जसमेवास्मिन् कृषिं दधात्या ज्ञेदं कृष्णग्रेवमालभेद ्राह्मणः सौम्यो राजन्यो विदः सौम्यमाहाजसेव ब्रह्मण भगतो राष्ट्रम् परिगृह्णात्य कथा समावृन्ते पुरदेनम् देवासुराजेषु लोकेष्व स्पर्धं ञ्जुना मनसा सङ्ग्रामं जगतेन्द्रमेव मन्यमन्दं मनस्वं तज्ञस्वेन भागधे देनोपधापदि सदेवास्मिन् मनो दधाति जय जगौ संग्राममिन्द्राय मरुत्वदे कामगीन्द्रमेव मरुत्वं तज्ञस्वेन भागधे देनोपधापति सदेवास्मै प्रगच्छति ग्राम्येव भवति गृभस्तेन कृष्णस्तेन मारु पश्चात्कृष्णक्थ भवति पश्चादन्नव सामेवस्मै विशङ्करोदि सौम्यं भेदान्नकामः सौम्यम् वा अन्नगुं सोममेव स्वेन भागेदेनोपधापजिवास्मा अन्नं प्रयच्छत्यन्नादेवुर्भवत्येतद्वान्नस्य रूपकं समृद्धे सौम्यम्ब्रुमालभेदमलगो राज्यायसन्तगो राज्यं नो वनमेत्सौम्य इन्द्राय वृत्रेदगतश्रे प्रतिष्ठा कामः पाप्मानमेव वृत्रं तेर्त्वा प्रतिष्ठां गच्छतेन्द्राजाभिमा विघ्ने नगमादभेदजः पाप्मना गृहे स्यात्माप्मा वामादिन्द्रमेवाभिमाति भागधेदेनोपधावति सदेवास्मात्माप्मानमभिमातिम् प्रणद इन्द्राय वज्रणे ललामम् वा शङ्गमानभेदमलगुम् राज्याचन्दगुम् राज्यन्नोपनमेदिन्द्रमेव वज्रे यस्वेन भागभेदेनोपधावति सदेवास्मे वज्रम् प्रगच्छति सरेन उपैनगम् राज्यम् न मदि भ्रामप्रासङ्गो भवत्येतद्वै वज्रस्य रूपकम् सावादित्यो न विजरोच ेष्मे मध्यन्तने त्रेष्ठा नेवादित्यस्ते जागंसि वसन्ता मध्यन्तने शरद्यपरान्यैवावरुन्धयस्त्रयालभ्यन्ते पूर्वमेवास्मिन् ते चोदधाय संवत्सरं वर्यालभ्यन्ते संवत्सरो वै ब्रह्मवत्सस्य स्मै ये ब्रह्मवर्तसं ब्रह्मवर्जस्येव भवतिसरस्य मनस्ता प्राजापत्यङ्कद्विमानभेद प्रजापतिः सर्वा देवता देवताः स्वेव प्रतिष्ठति गतिपिधिजा दुश्चर्मा भविष्यामेति सौमापौष्णज्ञश्याम मालभेद सौम्यो मे देवतया पुरुषः पौष्णाः पशस्म चैवास्मै देवतया ुश्चर्मा भवज देवाश्च वै नमश्चास्मिलोके स्पर्धन्त देवा अमन्यन्त प्रजापतिरात्मनवृक्षपसौ निरमिमे दे देवा वेष्णावरुणे भषामालभन्तेन्द्रमुक्षानन्तम् वरुणेनैव ग्राहयित्वा विष्णुना यज्ञेन प्राणुतयेन्द्रेणस्येन्द्रियमवृन्दतजोऽभ्यादृजभां स्यात् सस्पर्धमानो वेष्णावरुणे वसामालभेत इन्द्रमुक्षाणं वरुणेनैव भ्यादृजं ग्राहयित्वा विष्णुना यज्ञेन प्रणुदत ऐन्द्रेणैवास्येन्द्रियं वृन्दे भवत्यात्मना भवतेन्द्र महन्तं वृत्रो हदर्भोगे रसि वृत्रस्य शेर्षतो गा बमुदा यन्दा वैदे भवन्दात्तमिन्द्राचारत्सौ मन्यतयो मारिपमालैतमुत्सेतास्मात् पाप् कृष्णग्रेपमालैन्द्रमृथं तस्याज्ञापसृतशोडशधा वृत्रस्य भोगानव्यदह दैन् न्द्रेणमात्मन्न धत्तजः पाप्मना गृहे तस्यात् स आज्ञेदं कृष्णग्ने ममालभे तैन्द्रेवास्य स्वेन जैनोपसृतः पाप्मानमविदहत्यैन्द्रेणमात्मन् धत्ते पात्मनो भवत्येव पृथिविजालभे तद्योगपरध्यो न ज्योरिषो प्रतिष्ठितो सेषजोगपर ी एव प्रत्ययपतिष्ठति पर्झालिणी भवति तस्मै लोका अपशुष्कापशुष्काधैष जगपरुद्भुमेव स्वेन भागधे देनोपधापजन स्मादिमान् लोकान्यपि सम्प्रदा वय दिप्रास्मादिमे लोकास्तु मन्त्रिपुञ्जत्येनुपतिष्ठते इन्द्रो बलस्तभिलमपौर्णात्सलमुत्तमः पशुदासेत्तम् पृष्ठम् मृति सङ्गृह्यो दक्षिदत्तगो सहस्रम् पशवो नोदायान् सवन्नतो भवत्यः पशुकादमालभेदेन्द्रमेव स्वेन भागे नोपधापदि भवत्युम् न भवति साहस्रीमारेषा लक्ष्मीऋम् नतो लक्ष्मीदेव सहस्रम् पशोन् प्राह वैष्णवम् वानमालभे चैतस्मिन् वैलत्सहस्रमध्यतिष्ठत्तस्मादेश वा मनः समे चितः पशुभ्यदेव प्रजातेभ्यः प्रतिष्ठान् नोर्हरिसहस्रम् पशोन् प्राप्तमित्याहुरहोरात्राण्येव सहस्रन्दम् वाद्यालभेन पशवो वा अहोरात्राणि पशुनेव प्रजातान् प्रतिष्ठाङ्गमज्योषधे वे हरमालभेत प्रजागामोषध जो वादेतं प्रजादे हरिबाधन्ते जोदं प्रजादेशन् भृजान्न खलु वादे तेषघ्नन्ति वेहमद्योषधिरेव स्वे नोपधापजुता देवास्मे स्वाद्योने प्रजां प्रजनयन्ति इन्दने प्रजामापो वा वोषध ज सत्पुरुष आपदेवास्मासज्जने ृगश्चैवं वेदगश्च नापस्त्वा वासतः सद्भजते कामो जातो भवतीन्द्रमेवं सोत्वात्तमैन्द्रमेवालभे तैतद्वा साक्षा देवेन्द्रिजमवरुन्धये पुनरुत्सृष्टमानभेदे स मन्नपिच्छिन्नो वाणः सन्नातृतेदात् पुनरु पुनरसृष्टि सामपेथ समृद्ध्ये ब्राह्मणस्पत्यन्तोपरमानभेदागजलं ब्रह्मणस्पतिमेवोपधापति तस्मादेवै न मामृश्चाजगामार्च्छदतो परोभ दिक्षुरभविर्वारे लक्ष्मी यत्तो मरः समृद्धैश्चो जोगो भव दिवज्रो वैष्ठ्यो वज्रमे वा स्मै प्रहरति शरमजम्बरिः शृणात्येवैनं वैभेदय विद्मभिनत्य वैनम् हस्पत्यकं शिलपृष्ठमालभेदघ्रामकामो यः कामजेन पृष्ठकं स्मा अन्नं प्रयच्छत्यन्नादेव भवति श्यामो भवत्येतम् वा अन्नस्य रूपगं समृद्धै मारुतं वृष्णिमालभेदान्नकामान्नं वै मरुतो मरुतदेवस्वेन भागधेदेनोपधापदितदेवास्मा अन्नं प्रयच्छन्त्यन्नादेव भवति वृष्णिर्भवत्ये तद्वानस्य रूपकं समृद्ध्या ऐन्द्रमर्णमालभेदेन्द्रियकामयिन्द्रमेव स्वेन भागेदेनोपधापदि सजे स्मिन् इन्द्रियं दधाति भवत्येतद्वामिन्द्रस्य सा वित्रमध्वस्तमालभेद सनि कामस्य पिता वै प्रसवानामी शेषापधापदि सदेवास्मै सनिं वसुपति दानकामास्मै प्रजा भवन्त्यपध्वस्तो भवति सा वित्रोश्चेश देव दया समृद्ध्ये न्नकामो वैश्वन् स्वय नोपधापदितदेवास्मान्नागदेव भवति बहरोप भवति बहरोपग्रह्यन्न समृद्धे परिमहुरोभपतिमहुरे वच्चो ेष समृध्ये प्राजाभक्त्यन्तो परमानभे ददस्यानाः ज्ञानमि भज्यो गामद प्राजाभक्त्यो मे पुनः प्रजापदे खलु वैनस्य वे दलस्यानाः ज्ञानमि भज्यो गामयदे प्रजापतिमेव स्वेन भामेन सलेवैनन्दस्मास्यामान्मुञ्चलितो कारो वेगागत्रिकेशिरोच्छ पराप दत्तम् बृहस्पतिरुपाग्रन्धाच्छाशिरपृष्ठा वशाभपद्यो जल्लोहिलम्बलापतृद्र उपागृह्गं सज मृष्टा ब्रह्मवर्त सगा बृहस्पति सदेवास्मिन् ब्रह्मवर्त छन्दति ब्रह्मवर्तस्येव भवति छन्दसाम्बालेभारसखुवै ब्रह्मवर्चन्दसा मे ्रह्मवर्धसमवरुन्धे मैत्रावरुणेन्द्रियोमालभेद वृष्टिकामो मैत्रं वा अहर्वारुणे रात्रिरहोरात्राभ्यां खलु वै पर्जन्योषे मित्रावरुणा वेवस्य स्मा अहोरात्राभ्यां पर्जन्यं वलयतच्छन्दसां वा खलु वै वृष्टिन्दसा मे वरसेन वृष्टिमव रुन्धे मेत्रावरुणेन्द्रिरूपमा श्वदेवीं बहुलोपामालभेतान्नकामो वैश्वदेवं वा अन्नं विश्वानेव देवां स्वेन वा स्म अन्नं वृगं नादेवन्दसां वा जयसोगद्वशास देव वा अन्नं छन्दसामेवरसेनसमन्नमवरुन्धेवैश्वदेवीं बहुलोपामालभेत ग्रामकामो वैश्वदेवा वै सदा विश्व नेव देवान् स्वेन भाग सजातां ेनोपधापति तदेवास्मै सजातान्द्रयच्छन्देघ्रान्नेव रसेन सजाता न वरुन्धे मानधेत ब्रह्मवर्जसगाम्बरृस्पतिमेवस्योपधापति सदेवास्मिन् ब्रह्मवर्जसन्दे ब्रह्मवर्जस्येव भव दिवशं जय दिगदुक्षावशय खलु वै ब्रह्मवर्च संवश नैव ब्रह्मवर्त समवरुन्धे रौद्रेवणे रुद्रमे वैनम् <laughs> सावादित्योऽनं यरोच तस्मै देवाः प्रादश्चित्यमेच्छन्दस्मादेताकं सौरे विश्वेतां वशामालभन्द तदैवास्मिन्नुज मदधरुजो ब्रह्मवर्च सकामस्यात्तस्मादेताकुं सौरे विश्वेतां वषामालभेदामुवादित्योपधामज स देवास्मिन् ब्रह्मवर्च सन्दधाति ब्रह्मवर्चस्येव भवति पेयजो योपो भवत्यसौवा ्रह्मण रोपणं भवति वज्रवेश्च यं वरिष्णाैनं वैष्णवं वा मनमानभेदज्ञानेद्विष्णरुपेयज्ञा वैष्णवस्तेन भागभेदेवस्मै यज्ञं वयच्छत्रुपेनै यज्ञानमदि वामना भवति वैष्णव चेष्ट समृद्धेष्टं वटवमानभेदपशुगामस्तष्टा वै पशूनां विशुदानाम् ष्टानमेव स्वेन भागधेरे नोपधावसदेवास्मै पुषोऽवादे तस्मिन्वस्वाक्षादेव प्रजानवरुन्धे मैत्रज्ञस्वे न मानभेन संग्रामे संयत्वे समजकामो मित्रमेव स्वेन भागधेरे नोपधावसदेवैनं मित्रेण सन्नगति विशालो भवति लवसा जगत्य त्यम् कृष्णमालभेन वृष्टिकामः प्रजापतिद्वै नृष्ट्यालीशे प्रजापतिमेव स्वेन वरुणगो सुषबाणमन्नाद्यन्नो बाणमच्छरेतां वारुणें कृष्णां वशामश्चाविस्वारीरेवतालभत ततो वेतमन्नाद्यमुपानमद्यमलमन्नाद्याजसन्तमन्नाद्यन्नोपनमेच्छतां वारुणें कृष्णां वशामालभेद वरुणमेव नथे नोपथापति सेवा स्म अन्नं मृगच्छत्यन्नादेव भवद कृष्णा ृद्धै मैत्रज्ञेतमानभेद वारुणं कृष्णमपाञ्चौषधेनां सन्धावन्नकामो मैत्रेर्वा ओषधेरापोपाञ्च खलु वामो मित्रावरुणाभेव स्मा अह्नं भयस्यावरुध्यै विशाखो भवद्वैते समृद्ध्यै मैत्रं विश्वेतमानभेदवारुणं कृष्णं शोकामजाभेगन्मयि त्वभवति मित्रेणैवास्मै वरुणगुं शमयति यद्वारुणः साक्षादेवैनं वरुणपाशान्मं चुदयदेनाशुद्भवति जीवत्येव देवावेपुष्टिं न विन्दं तान् मिथुने पश्यन्तस्यान्न समराध अश्विना बभ्रोदामापयोर्वारेधामै तस्याम्बदमिधिसाश्विनो देवा भवद्यः पुष्टिकामस्यामाहाश्विनीञमेऽम्बसामा नभेदाश्विनाभेवस्वेन भागे तेनोपधापदितामेवस्मिन् पुष्टिम् धत्तः पुष्यति प्रजया पशुभिः श्विनं धोमृगलाभमालभेदयो दुर्ब्राह्मणः सोमं पिपासे अश्विनौ वैदेव नाम सोमपावास्तान्तपश्विना वेदस्तजयदा यो दुर्ब्राह्मण स्वामं पिपासत्यश्विना वैवस्वेनतास्मे सोमपीठम्पैनगु स्वामपीथो नो ृगमालभेतजमजग्भिगं समभिषकुं सोतां वागृच्छत जमजग्भिगं समभिषकुं सन्धि ने च ग्राम्यशुर्नारण्यो यज्ञो मृगो ने भैषग्रामे नारण्ये जमजग्भिगं समभिषकुं सन्धिपाजुर्वेदेवावित्रं वाजुमेव न ेनोपधावधि स देवैनं पवयति पराजीवादेतस्मै युच्छन्ते यच्छति तमःपाप्मानं प्रविशति यस्याश्विनेशस्यमानेव सूर्यो न विर्भवति सौर्यं मुहुरोपमालभेतामुभेवादित्यज्ञस्वेन भागेदेनोपधावति स देवास्मात्तमः पाप्मानमपहन्ति प्रदेच्यस्मै युच्छन्ते योच्छत्यपतमः पाप्मानगम् इन्द्रम् वस्पदस्परेन्द्रन्नव मरुतो रग्धवो दिवो जावः शर्म भयेष्मिन्द्रकम् सुहवकम् हवामहेगम् होमुचकम् सुकृतम् दैव व्यञ्जनम् आज्ञम् मित्रम् वर्णकुम् सातरे भगम् जावा वृषवे मरुतः स्वस्तजे मम शीतमिन्द्रापर्वदा जुमन् हस्तन्नो विश्वे परिवस्यन् दुदेवाः नाम भुवे दुराणा आयद्गुवन्मरुतो वावशानाः श्रियसकम्भानुभिः सम्मिक्षरे ते रश्मिभिस्तलग्मभिः सुखादयः एवा श्रीमन्दलक्ष्मिनो अभिनवो विद्रे प्रियस्य मारुतस्य धाम्नः अग्नः समो वसुभिन अभ्यात् सोमो रुद्रेभिरभिरक्षतुत्मनाः इन्द्र मरुद्भर तथाकणा त्वादित्यैर्न वरुणस्तकम् सुशात् सन्नो देवो वसुभिरग्न्यस्तकम् सोमस्तनोभिरुद्रियाभिः दे। समिन्द्र मरुद्भरिदग्निवेत् समादित्यैर्नो वरुणो अजिज्ञिवत् यथादित्या वसुभः सम्बो समजानताभिः तृणामन्न हृणेलमाना दे दे विश्वे देवाः समरसो भवन्तु कुता चिद्यस्य नृषदमे अर्हन्तश्चिद्यमिन्धते सञ्जनगन्दि जन्तमः सल्यतिशो वनामहे सगुम्हं यामानुषाणाम् उत चूर्णस्य शमस यज्ञो देवानाम् प्रत्येतु सुन्दमादित्या सो भवतामिडयन्तः आभोर्वाचे सुमदर्वमृद्यागुम्भो सिद्यापरि वो वित्तरा सत् उपक्षेति वृद्धवया सुवीरः न दोराज्ञ आदित्यानाम् भवति प्रणेतौ आदित्या सोदयत्स्था देवा विश्वस्त भुवनस्य गोपाः दीर्घाधिलो रक्षमाणा सूर्यमिदानश्च जमाना ऋणानि तिस्रो भोमेः यन्त्रेण त्रेण व्रता अन्तरेषा व्रतेनादित्यामहि वो महे त्वम् तदर्जमन्वर्णमित्रचारु न्न क्षत्रियाकुम् अव आदित्यानि याचिशामहे सुमृकाकुम् अभिष्टये न दक्षिणाभिचिकितेन सव्याणप्राचेनमादित्या नोतपश्चा आज्ञाचिद्वसवोधेन याचिद्युष्मानीतो अभयञ्ज्योतिरस्या आदित्यानामवसा नूतनेन स क्षेमहि शर्मणा सन्तमेन नागास्त्वे अदितित्वे गुरास निमय्यज्ञन्दधुश्रोषमाणाः मम मे वरुण हवमद्या च मृणज त्वामपस्युराचके तत्पादामि ब्रह्मणा वन्दमानस्तदाशा आस्तेजमानो हविद्भिः महेणमानो वरुणे हवोऽर्धुरुषगुम् समान आयुः प्रमोषी ओ